गर्गसंहिता खण्डं फोर् 8. अध्यायम् एय् श्रीनारद उवाच गोपीनां यज्ञसीतानामाख्यानं शृणु मयिभिर सर्वपापहरं पुण्यं कामदं मङ्गलायनम् उशीनरो नाम देशो दक्षिणस्यां दिशि स्थितः एकदा तत्र पर्जन्यो नववर्षसमाचर धनवन्दस्तत्र गोपा अनावृष्टिभयातुराः सकुटुम्ब गोधनैश्च व्रजमण्डलमाययुः पुण्ये वृन्दावने रम्ये कालिन्दीनिकटे शुभे नन्दराजसहायेन वासं ते चक्रिरे नृप तेषां गृहेषु सञ्जाता यज्ञसीताश्च गोपिकाः श्रीरामस्य वरा दिव्या दिव्ययौवनभूषिताः श्रीकृष्णम् सुन्दरम् दृष्ट्वा मोहिदाष्टा नृपेश्वर व्रतम् कृष्णप्रसादार्थं प्रष्टुम् राधाम् समाययुः गोप्य ऊचुः वृषभानुसुदे दिव्ये हे राधे कञ्जलोचने श्रीकृष्णस्य प्रसादार्थं वद किञ्चिद् व्रतम् शुभम् तव वश्यो नन्दसूनुर्देवैरपि सुदुर्गमः त्वं जगन्मोहिनी राधे सर्वशास्त्रार्थपारगा श्रीराधोवाच श्रीकृष्णस्य प्रसादार्थं कुरुतैकादशी व्रतं तेन वश्यो हरिः साक्षाद्भविष्यति न गोप्या ऊचुः संवत्सरस्य द्वादश्या नामानि वदराधिके मासे मासे व्रतं तस्या कर्तव्यं केन भावतः श्रीराधोवाच मार्गशीर्षे कृष्णपक्षे उत्पन्ना विष्णुदेहतः मुरदैत्यवधार्थाय तिथिरेकादशीवरा मासे मासे पृथग्भूता सैव सर्वव्रतोत्तमा तस्याः षड्विंशतिम् नाम्नां वक्ष्यामि हृदकाम्यया उत्पत्तिश्च तथा मोक्षा सफला च ततः पुत्रदा षक्तिला चैव जया च विजया तथा आमलकी तथा पश्चान्नाम्ना वै पापमोचनी कामदा च तथा पश्चात् कथिता वै वरूधिनी मोहिनी चापरापोक्ता निर्जला कथिता तदः योगिनी देवशयनी कामिनी च ततः पवित्रा चाप्यजापद्मा इन्दिरा च ततः परं पाशाङ्कुशारमा चैव तदः पश्चात् प्रबोधिनी सर्वसम्वत्प्रदा चैव द्वे प्रोक्ते मलमासजे एवं षड्विंशतिं नाम्नामेकादश्याः पटे च संवत्सरद्वादशीनां फलमाप्नोदि सोऽपि हि एकादश्याश्च नियमं शृणुतादव्रजाङ्गनाः भूमिशायी दशभ्यां तु चैकभुक्तो जितेन्द्रियः एकवारं जलं पीत्वा धौतवस्त्रोदिनिर्मलः ब्राह्मे मुहूर्त उद्धाय चैकादश्याम् हरिम् नदः अधमम् कूपिकास्नानम् वाप्यां स्नानं तु मध्यमम् तडागे चोत्तमम् स्नानं नद्या स्नानं ततः परम् एवम् स्नात्वा नरवरक्रोधलोभविवर्जितः नालपे तद्दिने नीचांस्तथा पाकण्डिनो नरान् मिथ्यावादरथांश्चैव तथा ब्राह्मणनिन्दकान् अन्यांश्चैव दुराचारानगम्यागमने रदान् परद्रव्यापहारांश्च परदाराभिगामिनः दुर्वृत्तान् भिन्नमर्यादान्नालपी सव्रतीनरः केशवं पूजयित्वा अधुनैवेद्यं तत्र कारयेद दीपं दद्याद्गृहे तत्र भक्तियुक्तेन चेदसा कथा श्रुत्वा ब्राह्मणेभ्यो दद्यात् सद्दक्षिणां पुनः रात्रौ जागरणं पुर्या गायन् कृष्णपदानि च कांस्यं मांसम् मसुरांश्च कोद्रवं चणकं तथा शाकं मधुपराह्नं च पुनर्भोजनमैथुनम् कृष्णोव्रते च कर्तव्ये दशाभ्यां दशवर्जयेद क्रीडां च निद्रां च ताम्बूलम् दन्तधावनम् परापवादम् पैशून्यम् स्तेयम् हिंसान्तधारधिम् प्रोधाढ्यम् ह्यमृदम् वाक्यमेकादश्याम् विवर्जयेद कांस्यम् मांसम् सुरां क्षौद्रम् तैलं विदधभाषणम् पुष्टिषष्टिमसूरांश्च द्वादश्यां परिवर्जयेत् अनेन विधिना कुर्या द्वादशी व्रतमुत्तमं गोप्य ऊचुः एकादशी व्रतस्यास्य कालं वद महामदे किम् फलं वद तस्यास्तु महात्म्यं वद तत्त्वदः श्रीराधोवाच दशमी पञ्चपञ्चाशत् कटिका चेत् प्रदृश्यते तर्हि चैकादशी त्याज्या द्वादशीं समुपोषयेदशमी फलमात्रेण त्याज्या चैकादशी तिथिः मदिराबिन्दुपादेन त्याज्यो गङ्गापडो यथा एकादशी यदा वृद्धिं द्वादशी च यदा गदा तदा परा ह्युपोष्या स्यात् पूर्वा वै द्वादशी व्रते एकादशी व्रतस्यास्य फलं वक्ष्ये व्रजाङ्गनाः यस्य श्रवणमात्रेण वाचपेयफलं लभेत् अष्टाशीतिसहस्राणि द्विजान् भोजयदे तु यः तत्कृदं फलमाप्नोति द्वादशी व्रत किन्नरः स सागरवनोपेदां यो वसुंधराम् वसुन्धराम् तत्सहस्रगुणं पुण्यमेकादश्या महाव्रते ये संसारार्णवे मग्नाः समाकुले तेषामुद्धरणार्थाय द्वादशी व्रतमुत्तमम् रात्रौ जागरणम् हृत्वैकादशी व्रतकृन्नरः न पश्यदियमम् रौद्रम् युक्तपापशतैरपि पूजये धियो हरिम्भक्रिया द्वादश्यां तुलसीदलैः लिप्यदेन सपापेन पद्मपत्रमिवाम्भसा अश्वमेधसहस्राणि राजसूयशतानि च एकादश्युपवासस्य कलां नार्हन्ति षोडशीं दश पक्षे तथा वै प्रियाया दशपक्षे दुपुरुषानुद्धरेन्नरः यथा शुक्ला तथा कृष्णा द्वयोश्च सदृशम् फलम् धेनुस्वेदा तथा कृष्णा उभयोः सदृश्यम् पयः मेरुमन्दरमात्राणि पापानि शतजन्मसु एका चैकादशी गोप्यो दहते वा द्वादश्याम् दानमेव स्वल्पं वा सुकृतं गोप्यो मेरुतुल्यं भवेच्च तदा एकादशीदिने विष्णोः शृणुधे यो हरे पदां सपद्वीपवदिदाने लत्फलं लभदे च सः कङ्कोद्धारे नरस्नशङ्खोद्धारे नरः स्नात्वा दृष्ट्वा देवम् गदाधरम् एकादश्युपवासस्य कलाम् नार्हदिषोडशीम् प्रभासे च कुरुक्षेत्रे केदारे बदरिकाश्रमे कश्याम् सूकरक्षेत्रे ग्रहणे चन्द्रसूर्ययोः सङ्क्रान्तिनाम् च दुर्लक्षम् दानम् दत्तम् एकादश्युपवासस्य कलम् नार्हतिषोडशीम् नागानाम् च यथा शेषः पक्षिणाम् गरुडो यथा देवानाम् च यथा विष्णुर्वर्णानाम् ब्राह्मणो यथा वृक्षाणाम् च यथा श्वद्धपात्राणाम् तुलसी यथा व्रतानाम् च तथा गोप्यो वरा चैकादशी तिथिः दशवर्षसहस्राणि तपस्तप्यदियो नरः तत्तुल्यं फलमाप्नो जिद्वादशीव्रत किन्नरः इद्धमेकादशीनां च फलमुक्तं व्रजाङ्गनाः कुरुताशिव्रतं यूयं किं भूय शोधुमिच्छत इति श्रीगर्गसंहितायां माधुर्यखण्डे श्री श्रीनारदबहुलाश्वसंवादे यज्ञसीतोपाख्याने एकादशी माहात्म्यं नामाष्टमोऽध्यायः ओम्